अथ द्विपञ्चाशदधिकशततमोऽध्यायः तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः अवतीर्य द्रुमात्तस्मादा लोहिताक्षो महाबाहुः ऊर्ध्वकेशो महाननः मेघसङ्घातवर्ष्मा च तीक्ष्णदं श्रोभयानकः तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनं हिडिम्बो वाच भीमसेनमिदं वचः आपतत्येष दुष्टात्मा संक्रुद्धपुरुषादकः साहं त्वां भ्रातृभिः सार्धं अहं कामगमा वीर रक्षो बलसमन्विता आरुहे मां मम श्रोणिं नेष्यामि त्वां विहाय सा संसुक्तान् मातरं च सर्वानेव गमिष्यामि गृहीत्वा वो विहाय भीम उवाच मा भयस्त्वम् पृथुशुश्रोणी नैष कश्चिन्मयि स्थिते अहमेनम् हनिष्यामि प्रेक्षन्त्यास्ते सुमध्य